श्रीमद्भागवत् महापुराणं दसंस्कन्दम् असाष्टात्रिंशोऽध्यायः अक्रूर्जीकीव्रजयात्रा शेषोकुवाच अक्रूरोऽपि रात्रिं मधुपुर्यां महामतिः उषित्वा रथमास्थाय प्रयो गच्छन् पथि महाभागो भगवत्यम्बोजे क्षणे भक्तिं परामुपगत एवमेतच्चिन्तयन् किं मया चरितं भद्रं किं तप्तं परमं तपः किं वाथाप्यर्हते दत्तं यद्रक्ष्याम्यद्य केशवं ममैतद्दुर्लभं उत्तमश्लोकदर्शनं विषयात्मनो यथा ब्रह्मन् कीर्तनं श्रजन्मनः नैवं ममाधमस्यापि स्यादेवाचित्तदर्शनम् हियमाणकालनद्या क्वचिद् धरति कश्चन ममाद्या मङ्गलं नष्टं फलवाँश्चैव मे भव जन्नमस्ये भगवतो योगि ध्येयाङ्घ्रिपङ्कजं कंसोऽबताद्या कृतमेत्यनुग्रहं द्रक्षेऽङ्घ्रिपद्मं प्रहितो मुनाहरे कृतावतारस्य दुरत्ययं तमः पर्वेतरन्यन्न खण् कमण्डलत्यषा यदर्चितं ब्रह्मभवादिभिः सुरैः सि याचदेव्यामुनिभिः ससात्मतैः गोचारणायानुचरे सरद्वने यद्गोपिकानां कृजकुङ्कुमाङ्गिङ्कृतं द्रक्ष्यामि नूनं सुकपोलनाशिकं स्वितावलोकारुणकञ्जलोचनम् मुखं गुलालकावृतं प्रदक्षिणं मे प्रचरन्ति वै मृगाः अभ्यद्य वैष्णोन्मणुजत्वमीयुषो भारावताराय भुवो निजेच्छया दावण्यधाम्नो भवितो पलं भनम् मह्यं न न स्यात्फलमञ्जसादृश ययुक्षिताहनरहितोऽप्यसत्ततोः सतेजसापासतुमोभिदा भ्रमः समायात्मन्दचितय स दीक्षया प्राणाक्षधीभिः सदने स्वभीयते यस्याखिलामि वहभिः सुमङ्गलैर्वाचो विमिश्रा गुणकर्मजन्मभिः त्राणन्ति शुम्भन्ति पुनन्ति वै जगन् यास्तद्विरक्ता शवशोभनामताः ता चार्वतेन किल सा सेतुपालां मरवर्यसर्मक्रे यतो वि तन्वन् व्रज आश्रयेश्वरो गायन्ति देवायशेषमङ्गलम् तं त्वद्य नूनं महतां गतिं गुरुं त्रैलोकिकान्तं दिशि रूपं दधानं श्रिय इप्सितास्पदं द्यक्षे ममा सन्मृशः सुदर्शनाः अथावरूढः सपदिशयोरथात् प्रधानपुंसोऽश्चरणं सुलब्धये श्रियाधितं योगिभिरप्यहं ध्रुवं नमस्य आभ्यां च सखिन्मनौकश आप्यङ्घ्रिमूले पतितस्य मे विभूशिरस्य धास्यन्यजहस्तपङ्कजं दत्ताभयं कालभुजङ्गरङ्गचा प्रोद्वेजितानां चरणैषिणां नृणां तमर्हणं यत्र निधाय कौशिकस्तथा बलिशाप यद्वा विहारे वृजियोषितां श्रमे स्पर्शेन सौगन्धिकगन्ध्यपानुदत् न मय्युपैशत्यरीं बुद्धिमच्युत कंसस्य दूतप्रहितोऽपि वेश्वरे योऽन्तर्बहिश्चेतस एतदीहितं क्षेत्रज्ञेक्षत्यमलेन चक्षुषा अप्यङ्ग्रिमूले वहितं कृताञ्जलिं मामीक्षिता सस्मितमार्देयादुषा अपद्यपध्वस्तसमस्त किल्विषो बोढाबुदम्बीत विशङ्क ऊर्जिताम्